गणेशपुराणं क्रीडाखण्डम् अध्यायं फिफ़्टि वन् व्यास उवाच कथमाराधितस्तेन काशीराजेन विघ्नराड कथं चर्मदेहेन गदस्थानमनुत्तमं यदन्मेषंस भगवन् शृण्वां तृप्यामि न क्वचिद क उवाच सम्यक् शृणु महाबुद्धे कथां पापप्रणाशिनीं कथयामि महाबुद्धे इतिहासं पुरातनं यथा निर्वासनो भूपः स्वानन्दभवनं गदः महिमानं परिज्ञाय मुदलाज्ञागराग का मनसा वाचा गणेशे भक्ति मान भृद गोदा महाभक्तिया गजा रधाश्व रान्या दश दान्यजानी विनायकप्रदये स ददात्येव दिने दिने मिष्टान्नभोजनैर्विप्रां स्तोषयित्वा धनादिभिः गणेश दृढभक्रिंस याचते स्म दिने दिने माकशुक्लचदुर्ग्यांस भौमवार्ये शुभे दिने स्नम चक्रे उष काल संध्या तथा घोषय तथा नालंकरण शुक्र आकाय सकलां लोकान् ब्राह्मण सुहृदोपरा पूजयामास विधरन शुकस वारवारं वारावारम् पश्यति स्म विमानागमनम् नृपः सभाधो गन्तुकामांस्तान् निषेधति मुहुर्मुहुः तदो विनायको ज्ञात्वा कालम् तस्य महात्मनः प्रेषयामास दूदाभ्याम् विमानम् द्युतिमत्तरम् गणेश उवाच प्रमोदामोदगत्वा तु काशीराजं धरातले मद्भक्तमत्रा नयते विमानवरमास्थितं क तदाज्ञां प्राप्य दिवो लोकादुभौ तदा दिव्यं विमानमादाय काशीराजं समीयधुः तत्ते जोद्धर्षिता मे मेनिरे प्रलयानलं केजिच्च मेनिरेभ्रे विद्युत्पादमिवा गदं तर्कयामासुरपरे पदन्तं रविमण्डलं खण्डानां चैव तूर्याणां गन्धर्वाप्सरसां स्वनं श्रुत्वान्ये जज्ञिरे यानं गणेशकृपया गतम् अङ्गणे काशिराजस्य समुत्तीर्णं श्रिया लसद आगदौ राजनिकडे प्रमोदामोदसंज्ञकौ गणौ दिव्याम्बरधरौ दिव्यभूषा विराजितौ दिव्यमाल्यानुलेपाद्यैर्दिव्यदीप्त्या स्मराविव विनायकस्वरूपौ तौ न राजा निजासने उपविश्य प्रपूज्यासु यावत्पृच्छति तौ नृपः तावत् तावूच दुर्दूतौ सर्वलोकेथ शृणुराजन् प्रवक्ष्यामि वाक्यं वैनायकं शुभं न भक्तिस्त्रिषु लोकेषु त्वत्प्रतिकरो नृपः ध्यायन्ति दिवारात्रम् शृण्वति शृण्वति त्वद्गुणान्वदे निशम् धन्योऽसि जन्मसाफल्यम् कृतं पुण्यवदा त्वया त्वद्दर्शनात् क्षिप्रतरं नष्टं पापं तमोमहद न जानीवस्तभः किं ते कृतं जन्मान्तरेषु च परब्रह्मस्वरूपोऽयं बालरूपी विनायकः भवतां गृहमागत्य नानालीला अदर्शयद देवस्य देवभक्तस्य महिमा नैव गोचरः यदो विनायको देवस्त्वां चिन्तयति सर्वदा त्वदर्थं प्रेषितं यानं दिव्यं वैभव संयुदम् नयावो यावो दिव्यलोकं त्वां तदात्म्या वचवर्तिनौ शीघ्रमानयदां काशी राजमित्याहनौ विभुः शृण्वत्सु सर्वं लोकेषु शुश्रावसवचस्तयोः अमृताब्धौनिमग्नोऽभूदानन्दाश्रुसृजन्मुहुः देहावस्थां पुनर्लब्ध्वा प्रणम्य तौ उवाच सभा धन्यं जन्म च पितरौ निष्ठा भक्तिश्च सम्पदा यद्दुर्लभो मया दृष्टौ चरणौ वांशुभावहौ विनायकस्वरूपेण प्राप्तौ नेदुम् परं स्थलम् इक्षु सागरमध्यस्तं दुर्दर्शं चर्मचक्षुषाम् यन्निर्गुणं चिदानन्दं परं ब्रह्मसनातनं विश्वोत्पत्तिस्थितिलयहेदुभूतमगोचरं यदणुभ्योऽप्यणुतरं स्थूलास्थूलतरं च यत् सर्वत्र च साकारं गुणभोक्तृ नानारूपमरूपं च भूपारहरणोद्यतं तेन मे रङ्कभूतस्य कृपेयं महतीकृत इत्युक्त्वा स नमस्कृत्य सर्वालिङ्ग्यपेक्ष्य च दूतापूजेत्वारुहदं प्रणिपादपुरःसरम् पश्चादपं समारोक्ष्ये विमानं मर्त्यदुर्लभम् अमात्याभ्यां नमस्कृत्य पुत्रं दत्त्वा तयोः करे प्रजानां पालनं कार्यं धर्मेण च बलेन च मुद्गलेन च तत्प्रोक्तमनुभूतमिदं मया इत्युक्त्वा चर्मदेहेन रुरोहयानमुत्तमम् अधिष्ठितं तु दूताभ्यां पूजिताभ्यामनेकधा आरुढस्य च तत्रास्य देहो भूद्रविसन्निभ दिव्यैर्गन्धैरलङ्कारैस्ताभ्यां सम्पूजितोऽंशुकैः गतौ तौ वायुवेगेन दर्शयन्तौ च तौ नृपम् भूतप्रेदपिशाचानं लोगम् दुष्कृतकर्मणाम् यत्र दे विकृताकारा ऊर्ध्वपादा अधोमुखाः पृष्ठभागमुखा के जिन्मस्तकाक्षास्तथा परे हृदिनेत्राः पृष्ठनेत्राः सूक्ष्मकण्ठामहोदराः यथा रश्मौ जालगदे भ्रमंद परमानवः तदा भ्रमंद गगने दुखिन कोय लोको दूधवरौ ब्रूदम य सौब्रवीत येपुराणे क्रीड़ाखंडेकम ओ um...